नवाधिकशतमोऽध्यायः भीष्म उवाच गुणैः समुदितम् सम्यगिदम् नः प्रथितम् कुलम् अत्यन्यान् पृथिवीपालान् पृथिव्यामधिराज्यभा रक्षितम् राजभिः पूर्वम् धर्मविद्भिर्महात्मभिः नोत्सादमगमच्छेदम् कदाचिदिह नः कुलम् मया च कृष्णेन च महात्मना समवस्थापितम् भूयो युष्मासु कुलतन्तुषु तच्चैतद्वर्धते भूयः कुलम् सागरवत्यथा तथा मया विधातव्यम् त्वया चैवनसंशयः श्रूयते यादवी कन्या स्वनुरूपा कुलस्य नः सुबलस्यात्मजा चैव तथामद्रेश्वरस्य च कुलीनारूपवत्यश्च ताः कन्याः पुत्रसर्वशः उचिताश्चैव सम्बन्धे तेऽस्माकम् क्षत्रियर्षभाः मन्ये वरयितव्यास्ता इत्यहं धीमताम् वर सन्तानार्थम् कुलास्यास्य यद्वा विदुरमन्यसे विदुर उवाच भवान्पिता भवान्माता भवान्नः परमो गुरुः तस्मात् स्वयम् कुलस्यास्य विचार्य कुर्यद्धितम् वैशम्पायन उवाच अथ शुश्रावविप्रेभ्यो गान्धारीम् सुबलात्मजाम् आराध्यवरदं देवं भगनेत्रहरं हरं गांधारी गान्धारी किल लेभे वरम् शुभा इति शुश्रावतत्त्वेन भीष्मः कुरु पितामहः ततो गान्धारराजस्य प्रेषयामासभारत अचक्षुरिति तत्रासीत् सुबलस्य विचारणा कुलम् ख्यातिम् च वृत्तम् च बुद्ध्या तु प्रसमीक्ष्य धृतराष्ट्राय गान्धारीम् धर्मचारिणीम् गान्धारी त्वधशुश्राव धृतराष्ट्रमचक्षुषम् चास्मै पित्रा मात्रा च भारत ततः पट्टमादाय कृत्वा बहुगुणम् तदा बबन्धनेत्रे स्वे राजन् पतिव्रतपरायणा नाभ्यसूयाम् पतिमहमित्येवम् कृतनिश्चया ततो कान्धारराजस्य पुत्रशकुनिरभ्ययात् स्वसारम् वयसा लक्ष्म्या युक्तामादाय कौरवान् ताम् तदा धृतराष्ट्राय तदौ परमसत्कृतम् भीष्मस्यानुमते चैव विवाहं समकारय दत्त्वा सभगिनीम् वीरो यथार्हम् च परिच्छदम् पुनरायात्स्वनगरम् भीष्मेण प्रतिपूजितः गान्धार्यपिवरारोहा शीलाचारविचेष्टितैः तुष्टिम् कुरूणाम् सर्वेषाम् जनयामासभारत वृत्तेनाराध्यतान् सर्वान् गुरोन् पतिपरायणा वाचापि पुरुषानन्यान् सुव्रतानान्वकीर्तयत् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि धृतराष्ट्रविवाहे नवाधिकशततमोऽध्यायः